दृष्ट्वा च विश्वकर्माणम् व्यादिदेशपितामहः सृज्यताम् प्रार्थनीयैका प्रमदेति महातपाः पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च निर्ममेयोषितं दिव्यां दिव्याम् चिन्तयित्वा पुनः पुनः त्रिषु लोकेषु यत्किञ्चिद्भूतं स्थावरजङ्गमम् समानयद्दर्शनीयं तत्तदत्र स विश्ववित् कोटिशश्चैव रत्नानि तस्यागात्रे न्यवेशयत् तां रत्नसङ्घातमयीमसृजद्देवरूपिणीम् सा प्रयत्नेन निर्मिता विश्वकर्मणा त्रिषु लोकेषु नारीणाम् रूपेणा ना प्रतिमाभवत् नतस्या न यद्गात्रे रूपसंपदा नियुक्ता यत्र वा सा विग्रहवतीव श्रीः कामरूपा वपुष्मती जहार सर्वभूतानां चक्षुंषि च मनांसि तिलं तिलं समानीया रत्नानां यद्विनिर्मिता तिलोत्तमेति तत्तस्य नामचक्रे ब्रह्माणं सा नमस्कृत्य प्राञ्जलिर्वाक्यमब्रवीत् किं कार्यम् मयि भूतेश येनास्म्यदेहनिर्मिता पितामह उवाच गच्छ सुन्दोपसुन्दाभ्यामसुराभ्याम् तिलोत्तमे प्रार्थनीयेन रूपेण कुरु प्रलोभनम् त्वत्कृते दर्शना देव रूपसम्पत्कृतेन वै विरोधस्याद्यथाभ्यामन्योन्येन तथा कुरु नारद उवाच सा तथेति चकारमण्डलम् तत्र विबुधानां प्रदक्षिणम्